नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् अद्यतनविषयः अस्ति मानवजीवनं धन्यं कथं कर्तुं शक्यते इति यत्र महान् प्रश्नः अस्ति मानवजीवनं धन्यं कथं कर्तुं शक्यते ईश्वरनिर्दिष्टकर्मणा एव मानवजीवनं धन्यं भवितुमर्हति तर्हि ईश्वरनिष्टकर्म अथवा ईश्वरनिर्दिष्टकर्म ईश्वरनिर्दिष्टं कर्म इत्युक्ते किम् इति चेत् ईश्वरं प्रति गमनम् एव ईश्वरनिर्दिष्टकर्म यः अस्मिन् लोके यः पशुः अस्ति सः कस्य साधनां करोति इति चेत् लौकिकवस्तूनां साधनां करोति पशुः मनुष्यः यः वर्तते सः परमात्मनः साधनां करोति परमात्मनः साधना एव मनुष्यस्य धर्मः वर्तते तर्हि परमात्मानं प्रति कः गन्तुं शक्यते तत्र किम् आवश्यकमस्ति परमात्मानं प्रति तत्र विषयद्वयम् अपेक्षितम् एकं तु गमनं द्वितीयं किम् अस्ति इति चेत् निर्मलं हृदयम् मनुष्यस्य मनुष्यः यः मनुष्यः अस्ति सः परमात्मनः साधनां करोति तदेव तस्य धर्मः वर्तते तर्हि परमात्मानं प्रति गमनं कथम् इति चेत् अत्र विषयद्वयम् आवश्यकम् एकं तु गमनं साक्षात् गमनं द्वितीयम् अस्ति निर्मलं हृदयं परमात्मानं प्रति गमनार्थं निर्मलं हृदयम् आवश्यकम् अपेक्षितं यथा शिशोः हृदयं निर्मलं वर्तते तथा साधकस्य हृदयं निर्मलं भवेत् साधकस्य हृदयं निर्मलं कथं भवति इति चेत् साधनाद्वारा एव हृदयं निर्मलं भवति तर्हि साधनाद्वारा किं भवति इति चेत् प्रवृत्तिः इत्युक्ते अनिष्टकार्यं कर्तुम् अनुचितकार्यं कर्तुं या प्रवृत्तिः अस्ति सा प्रवृत्तिः अपगच्छति एतादृश इच्छा एव न भवति इत्युक्ते कश्चन मनुष्यः अस्ति सः सामान्यतया एव जीवति तर्हि चौर्यकार्यं न करोति इति एतत् सर्वम् अस्ति इति सामान्यव्यवहारः एवं भवति परन्तु यदा संदर्भः आयाति यत्र बहु तत्र अस्माकं पुरतः अस्ति इदानीं दशरूप्यकाणां चोरि चौर्यकार्यं सः न करोति परन्तु यदि एकसहस्रम् अथवा इतोपि अधिकं दशसहस्रम् अथवा लक्षरूप्यकाणि तत्र चोरणार्थम् अवकाशः लभ्यते चेत् तदानीमपि सः चौर्यकार्यं न करोति वा इति प्रश्ने सति कदाचित् तथा न भवति एवं तत्र मनः भ्रष्टं भवति इत्युक्ते तत्र मनसि प्रवृत्तिः अस्ति चौर्यकार्यं कर्तुं प्रवृत्तिः अस्ति तर्हि साधनाद्वारा किं भवति इति चेत् हृदयं स्वच्छं निर्मलं भवति येन एतादृशप्रवृत्तिः एव अपगच्छति कदापि सः न करोति यतो हि तादृशप्रवृत्तिः एव नास्ति असत्यं वदनार्थम् अथवा चौर्यकार्यं कर्तुं या प्रवृत्तिः सा प्रवृत्तिः अपगच्छति तर्हि हृदयं निर्मलं कथं भवति इति चेत् एकं तु साधना द्वितीयं किम् हृदयं निर्मलं निर्मलकरणार्थं हृदयस्य नैर्मल्यं कथं लभ्यते इति चेत् निःस्वार्थजनसेवा यदा निस् निस्वार्थजनसेवां निस, कुर्मः तदानीं हृदयं निर्मलं भवति यत्र स्वार्थभावना गूढरूपेण अस्ति तदानीं तत्र सेवा इति वयं वक्तुं न शक्नुमः यदा वयं यः आपणिकः अस्ति तस्य पार्श्वे गच्छामः किमपि वस्तु अस्ति तद् तस्य क्रयणं कुर्मः तदानीं तत्र किञ्चित् धनमपि दद्मः तत्र तु सेवा नास्ति यः आपणिकः अस्ति तेन यद् वस्तु दत्तं तत्र तु सेवाभावः नास्ति तत्र तत्र तु व्यापारः अस्ति पारस्परिक Uh, तत्र पारस्परिक एक्स्चेञ्ज् अस्ति खलु पारस्परिकः व्यापारः अस्ति तत्र एकः किमपि ददाति अन्यः अन्यत् किमपि ददाति यत्र वयं किमपि दद्मः परन्तु किमपि पातुम् अभिलाषा नास्ति केवलं दद्मः परन्तु तस्य स्थाने अन्यत् किमपि वयं न स्वीकुर्मः तदानीं सेवा इति वयं वदामः व्यापारः तु पारस्परिकं वर्तते पारस्परिकः वर्तते सेवा तु एकपक्षीयः एकपक्षीया पक्षीया अस्ति तर्हि सेवया एव हृदयं सेवया हृदयं निर्मलं भवति साधना साधना साधनया हृदयं निर्म निर्मलं भवति तर्हि यदा सेवां कुर्मः तदानीं हृदयं स्वच्छं भवति तदानीं परमात्मानं प्रति गमनं सुलभं भवति अतः निःस्वार्थजनसेवा अस्माभिः करणीया अनेन मानवजीवनं धन्यं भवति यः साधकः साधनाद्वारा परमात्मान परमात्मनः समीपं निकटे गच्छति तदानीं तस्य जीवनम् इतोपि धन्यं भवति इतोपि सार्थकं भवति पशव पशौ एतादृशसामर्थ्यं नास्ति पशव एतादृश इच्छा अपि नास्ति इच्छा नास्ति इति कृत्वा सामर्थ्यमपि नास्ति मनुष्ये एतादृश इच्छा अपि अस्ति सामर्थ्यमपि अस्ति मनुष्यः तु परमात्मानं प्रति गन्तुम् इच्छति किमर्थम् इच्छति एतादृश इच्छा मनुष्ये कथम् उत्पन्ना इति चेत् परमात्मनः कृपया एतादृश इच्छा अस्ति मनुष्ये इति तदेव अस्माकं प्रमाणमस्ति यद् सः परमात्मानं प्रति गन्तुं तस्मिन् सामर्थ्यं वर्तते इति एतादृशसामर्थ्यमपि परमात्मना एव दत्तं तर्हि तत्र परमात्मानं प्रति गमनार्थं निर्मलं हृदयम् अपेक्षितम् अस्ति तदर्थं निःस्वार्थसेवा जनसेवा करणीया यदा अत्र कश्चन शिशुः अस्ति यदा सः प्रथमवारं चलितुमिच्छति तदानीं सः प्रयासं करोति किञ्चित् दूरं चलति तदनन्तरं पतति यदा पतति तदानीं सः बालकः सः शिशुः रोदिति तदानीं माता किं करोति अथवा पिता किं करोति तर्हि शिशोः पार्श्वे गत्वा तं गृहीत्वा तत्र यदा ब शिशुः शान्तः भवति तदानीं तत्र पुनः शिशोः प्रेरणा भवति तदानीं पुनः सः गन्तुं प्रयतते खलु साधकस्य जीवने अपि एवमेव अस्ति यदा साधकः चलितुम् आरभते तदानीं तत्र क्लेशः बालक बालकेन क्लेशः साधकेन क्लेशाः अनुभूयन्ते खलु तर्हि कदाचित् पतनमपि भवति तदानीं पुनः परमात्मा पितृरूपेण यः परमात्मा वर्तते सः प्रेरणां ददाति तर्हि तदानीं पुनः साधकः तं प्रति प्रयतते तर्हि परमात्मानं प्रति गन्तुं साधना करणीया तर्हि साधना कथं करणीया इति तत्र का पद्धतिः वर्तते इति कः अस्मान् बोधयति इति चेत् ब्रह्म एव गुरुः एकः न परः परमपुरुषः परमात्मा एव गुरुरूप गुरुरूपेण गुरुरूपेण अस्माकं पुरतः प्रकटीकृत्य साधनायाः पद्धतीं बोधयति किमर्थमिति चेत् तद् तस्य परमात्मनः कर्तव्यमस्ति यदि कश्चन मनुष्यः सिद्धः अस्ति परमात्मानं प्रति गन्तुं तदानीं तत्र परमात्मनः पितृरूपेण परमात्मनः कर्तव्यं वर्तते यद् तादृशसाधकं साधनामार्गः कः इति तेन बोधनीयं तेन मार्गः कः इति बोधनीयः कदाचित् यदा मनुष्यः सिद्धः तदानीं परमात्मा बोधयति इत्युक्ते कदाचित् किं भवति इति चेत् परमात्मा चिन्तयति अयं पुरुषः अयं मनुष्यः एतावता न सिद्धः अग्रे तर्हि सः प्रतीक्षां करोति परन्तु कदाचित् मनुष्यः उचितसमयात् पूर्वमपि सा कदाचित् तस्मिन् आकाङ्क्षा भवति अग्रे गन्तुं तदानीम् एतादृश आकाङ्क्षा यदा भवति तदानीं परमात्मा झटिति तस्य कृते अग्रगतिं प्राप्तुं तत्र गुरुरूपेण आविर्भूय सः साधनामार्गं प्रकटीकरोति यतोहि इदानीं तत्र यः पिता अस्ति परमात्मा सः बहु सन्तुष्टः अस्ति यतोहि अयं शिशुः कालात् पूर्वमेव सिद्धः अस्ति अग्रे अतः अहं विलम्बं न करोमि इति कृत्वा विलम्बः न करणीयः मया इति विचिन्त्य परमात्मा झटिति एव तत्र शिक्षां दीक्षां ददाति यतोहि इदानीं तत्र मनुष्यः बहु सिद्धः वर्तते अतः मया विलम्बः न करणीयः अतः यदा मनुष्यः सिद्धः अस्ति तदानीं परमात्मा झटिति आविर्भूय दीक्षां ददाति यथा मनुष्यस्य अग्रगती, इच्छा अग्रगति अग्रगतिं प्राप्तुम् इच्छा अस्ति तदानीं तत्र परमात्मा समर्पणं करोति साधकम् प्रति यद्यपि परमात्मा पूर्वं परमात्मना चिन्तितं यत् अयं सिद्धः नास्ति इति पर परन्तु यदा साधकः सिद्धः अस्मि अहम् इति प्रकटीकरोति तदानीम् उचितकालात् पूर्वमपि परमात्मा अस्माकं अवश्यमेव करोति मानवजीवने प्रार्थनायाः महत्त्वं वर्तते इत्युक्ते सामान्यतया वयं तत्र मह्यं एतद् ददातु तद् ददातु इति रूपेण प्रार्थना न करणीया इति वयं वदामः परन्तु एका प्रार्थना तु उचि एका प्रार्थना तु उचिता प्रार्थना तादृशप्रार्थना का इति चेत् परमात्मानं कृ परमात्मनः कृते एका प्रार्थना अस्माभिः करणीया तादृशप्रार्थना का इति हे परमात्मा मह्यं पराभक्ति भक्तिं ददातु पराभक्तिं ददातु अहम् अन्यत् किमपि न इच्छामि केवलं हे परमात्मा मह्यं पराभक्ति पराभक्तिं ददातु इति एव अस्माकं प्रार्थना भवति प्रार्थना भवेत् इत्युक्ते लौकिकवस्तु तु निरर्थकम् खलु लौकिकवस्तूनि तु लोके सर्वत्र सन्ति एव तर्हि तस्य तादृशवस्तूनाम् इच्छया कः लाभः अतः अस्माकं प्रार्थना मह्यं पराभक्ति भक्तिं ददातु इति एव अस्माकं प्रार्थना भवेत् तर्हि अस्माकं लोके समाजे अस्माकं व्यवहारः कथं भवेत् इति चेत् एकस्य पार्श्वे अधिकं धनं मा भवेत् तर्हि अधिकं धनम् अस्ति चेत् अन्यः यः अस्ति यस्य पार्श्वे अन्नम् अन्नपानं वस्त्रम् इत्यादिकं नास्ति तस्यापि तत्र अवकाशः भवतु एतेषां वस्तूनां यतोहि एतेषाम् एते एतानि वस्तूनि न सन्ति चेत् सः तु अग्रे ग अग्रे गन्तुं न शक्यते अतः एकः मानवः समाजः कथं भवेत् इति चेत् यत्र सर्वेषां जीवानाम् अन्नं पानं वस्त्रं चिकित्सा शिक्षणम् इत्यादिकं सर्वं सर्वेषां सर्वेषां भवेत् अतः अस्माकं सर्वदा अस्माकं लक्ष्यं कथं भव इति चेत् अस्माकं समाजः एवं भवेत् यत्र सर्वेषां जीवानाम् अन्नं भवेत् वस्त्रं भवेत् चिकित्सा भवेत् शिक्षणं भवेत् एतत् सर्वं भवेत् तदानीमेव प्रत्येकं मनुष्यस्य अग्रगतिं प्राप्तुम् इच्छा भवति यदि भोजनं नास्ति तदानीं कथं वा वयं साधनां कर्तुं शक्नुमः कथं वा आध्यात्मिकजीवने वयम् अग्रगतिं प्राप्तुं शक्नुमः यदि अन्नम् अन्नं जलं वस्त्रं चिकित्सा सर्वं एतत् सर्वं नास्ति चेत् अग्रे अग्रे गन्तुमेव न शक्नुमः अतः प्रत्येकं मनुष्यस्य एतत् सर्वं भवेत् इत्युक्ते तादृशव्यवस्था मानवसमाजे तादृशव्यवस्था अवश्यमेव भवेत् तादृशव्यवस्था व्यवसायाः स्थापना स्थापनार्थम् अस्माभिः प्रयासः अवश्यं करणीयः तर्हि अस्माकम् एका एव प्रार्थना अस्ति परा पराभक्तिः तादृशपराभक्तिं विहाय अन्यत् किमपि वयं न इच्छामः परमात्मा परमात्मा भवन्तं प्रति मम मनसि भक्तिः जागरिता भवतु सदा जागरिता भवतु एतदेव एका प्रार्थना अस्माकम् यदा एतादृशप्रार्थना भवति तदानीं परमात्मा अस्माकं प्रार्थनायाः पूर्तिः कथं करोति इति चेत् साधनामार्गस्य दीक्षां ददाति सः इत्युक्ते तादृश अवसरः ददाति दीक्षां प्राप्तुम् अवसरम् अवसरं, अवसरं ददाति यदि अत्र यदि एकवारं साधनामार्गः अस्माभिः लब्धः तदानीं पुनः अस्माभिः न प्रार्थनीयं यद् मार्गं प्रदर्शयतु इति एकवारं तु मार्गः प्रदर्शितः तदानीं तु अग्रगतिः अवश्यं भवेत् तदानीम् अस्माकं प्रार्थना न भवति हे परमात्मा मार्गं प्रदर्शयतु इति प्रार्थना न भवेत् यदा प्रार्थनां कुर्मः साधनायाः दीक्षा लभ्यते तदानीं तस्मिन् मार्गे अस्माभिः अग्रे गन्तव्यम् इदानीं तत्र अस्माकं लक्ष्यमस्ति दिल्ली दिल्लीनगरात् पुणेनगरं पर्यन्तं गमनम् इति तर्हि तदानीं किं वयं किं पृच्छामः तत्र मार्गः कः इति वयं पृच्छामः दिल्लीनगरात् पुणेनगरपर्यन्तं मया गन्तव्यं तर्हि मार्गः कः कथं गन्तव्यम् इति वयं पृच्छामः एकवारं मार्गः कः तत्र कथं गन्तव्यम् इति वयं जानीमः तर्हि पुनः न पृच्छामः मार्गः कः मार्गः कः इति एवं यदा प्रार्थना क्रियते अनन्तरं मार्गः लब्धः साधनामार्गः लब्धः तस्मिन् मार्गे दीक्षा अपि लब्धा तदानीं पुनः न पृच्छामः मार्गः कः इति खलु तर्हि तदानीं किं भवति अस्माकं कर्तव्यम् इति चेत् यदा मार्गः लब्धः तदानीं तस्मिन् मार्गे साधना करणीया खलु तर्हि वयं जानीमः तत्र वैदिके मन्त्रेषु मं, एतादृश बहवः मन्त्राः सन्ति तत्र गायत्रीमन्त्रः इति अस्ति वयं जानीमः तत्र ओम् भूर्भुवस्वः ओम् तत्स्व तत्सवितु वरेण्यं वर्गोदेवस्य धीमहि धियो न प्रचोदयात् इति वयं जानीमः तत्र यदा साधनामार्गः न लब्धः तदानीं वयं प्रार्थयामः तान्त्रिकी दीक्षा मह्यं ददातु इति वयं प्रार्थयामः मह्यं यद् ज्योतिरूपेण भवान् तत्र मह्यं सद्विधानं करोतु सत्पतिपरिचालनं करोतु इति वयं र्थयामः शुभया सं, संयुनक्तु इति वयं प्रार्थयामः खलु यः सवितुः देवः यः वर् ज्योतिः पूजनीयः ज्योतिः अहं तस्य ध्यानं करोमि येन मम मम कृते मार्गः लभेत खलु इत्युक्ते अस्माकं बुद्धिः बुद्धि मेधा धियः भवतु येन मार्गः लभ्येत करो अतः सद्विधानं करोतु सत्पत्तिपरिचालनं करोतु इति वयं प्रार्थयामः परमपुरुषस्य या ज्योतिः अस्ति तस्य तस्याः तस्या ज्योते ज्यो ज्योतेः ध्यानं कुर्मः तेन बुद्धिः प्रकाशितः भवतु येन अस्माकं मार्गः लभ्यते कलो, असतो मा सद्गमय तमसो मा ज्योतिर्गमय इति एतत् सर्वं वयम् इति वयं वदामः इत्युक्ते यः असाधकः अस्ति सः एतादृशप्रार्थनां करोति हे परमपुरुषः हा अहम् अन्धकारे अस्मि इत्युक्ते आध्यात्मिक अन्धकारे अं, अस्मि मम लौकिकचक्षुः तु सम्यक् अस्ति अहं लौकिकवस्तूनि द्रष्टुं शक्नोमि परन्तु आध्यात्मिकवस्तु वस्तु अहम् न शक्नोमि अतः तस्य तस्मिन् तादृशदृष्टौ अहम् अन्धः अस्मि समसोमा ज्योतिर्गमय अन्धकारात् मह्यं ज्योति ज्योतिः ज्योतिं ददातु अहम् आध्यात्मिकवस्तु द्रष्टुमिच्छामि खलु अहम् असत् अस्मि इत्युक्ते अहं परिणामशीलः परिवर्तनशीलः अस्मि इत्युक्ते परिवर्तनशीलः इत्युक्ते अद्य अस्मि श्वः नास्मि इत्येवं रीत्या तत्र जगति यानि वस्तूनि सन्ति तानि सर्वाणि अपि एतादृश असत् वस्तूनि सन्ति तादृशवस्तुतः मह्यं यद् सद् सद्वस्तु अस्ति तस्य प्रकाशनं भवतु तादृशसद्वस्तुनः प्रकाशनं भवतु इति इति प्रार्थनां वयं कुर्मः यदा यः असाधकः अस्ति तस्य मार्गः कः इति एतावता बोधः न जातः तदानीम् एतादृश प्रार्थना भवति खलु मह्यं मार्गं प्रदर्शयतु इति प्रार्थना भवति इत्युक्ते परिवर्तनशीलं यत् इत जगत् वर्तते तस्मात् मह्यं यत् निरन्तर अवस्था अपरिवर्तनशीलवस्तु अस्ति तत् प्रति नयतु इति प्रार्थना भवति ते महे परमपुरुषात् भवान् सर्वत्र अस्ति भवान् मम हृदि अपि वर्तते भवतः उपस्थितिः उपस्थितेः अनुभवम् अनुभवः नास, नास्ति एतावता तादृश अनुभवः भवतु इति अस्माकं प्रार्थना भवति खलु य यः शिवः अस्ति परमात्मा अस्ति तस्य तत्र रूपद्वयं वर्तते खलु तस्य वस्तुतः पञ्चमुखानि सन्ति अत्र वयं सरलरीत्या पश्यामः चेत् तत्र रूपद्वयं वर्तते तत्र रौद्ररूपं वर्तते अपि च कल्याणमुखम् अपि वर्तते खलु यदा रौद्रः वर्तते तदानीं तत्र रौद्र इत्युक्ते दक्षिणमुखं रौद्रमुखं खलु मुखेन सह अस्माकं रक्षां करोति परन्तु कदाचित् परमपुरुषः मधुरः इत्युक्ते तस्य अपि अस्ति परमपुरुषस्य भयानकभयानकं रूपं वर्तते मधुररूपमपि वर्तते यदि मधुररूपं वर्तते तदानीं सः कल्याणसुन्दरं वर्तते तर्हि सर्वदा सः प्रीतिभावं प्रदर्शयति करुणां प्रदर्शयति परन्तु यदा रौद्ररूपं भवति भयानकं रूपं भवति तदानीं तर्हि अस्मान् दण्डयति यदा वयम् अनुचितं कर्म कुर्मः तदानीं सः अस्मान् दण्डयति खलु तर्हि रुद्रः रुद्रः इत्युक्ते किं तत्र यः अस्मान् रोदिति सः एव रुद्रः यः एतादृशं करोति अन्यान् अन्यस्य रोदनं करोति तर्हि सः रुद्रः तर्हि परमपुरुषस्य नाम रुद्रः इत्यपि अस्ति तर्हि तस्य एतादृशबहूनि मुखानि सन्ति कल्याणसुन्दररूपेणापि मुखं वर्तते रौद्ररूपेणापि मुखं वर्तते तर्हि अस्माकं लक्ष्यं किम् इति चेत् अत्र सा तत्र अस्माकं लक्ष्यमस्ति गमनं सर्वदा अग्रे गन्तव्यं तदर्थं निर्मलं हृदयम् अपेक्षितं निर्मलहृदयं कथं वयं प्राप्तं शक्नुमः इति चेत् साधनाद्वारा जनसेवया निःस्वार्थजनसेवया निर्मलं हृदयं वयं प्राप्तुं शक्नुमः इति अत्र अद्यतनविषयः अस्ति कोपि प्रश्नः अस्ति वा तर्हि अस्माकं करपत्रं प्रति गच्छामः नमस्ते किं दृश्यते वा न दृश्यते इदानीं Okay. तर्हि नमस्कारः तर्हि तत्र साधनायाः अवश्यक आवश्यकता का इति अस्माभिः चर्च्यमानं वर्तते तर्हि साधना इत्युक्ते किम् इति चेत् प्रकृतेः विरोधे यः युद्धः यद् भवति तदेव तत्र साधना इति वयं वदामः प्रकृतिबन्धनात् मुक्तिः अपेक्षिता तदर्थम् अस्माभिः साधना करणीया करणीया तर्हि साधनाद्वारा किं भवति इति चेत् अस्मासु यद् चैतन्यं वर्तते तत् चैतन्यं प्रकृतिबन्धनात् मुक्तिं क्रमेण मुक्तिं प्राप्नोति तर्हि यदा चैतन्यम् अस्मासु यत् चैतन्यं वर्तते तद् प्रकृतिबन्धनात् मुक्तिं प्राप्नोति तदानीं किं भवति इति चेत् अस्माकं तत्र शक्ति ही लभ्यते, ललौकिशक्ति लिद्धि सिद्धय ला सिद्धि सिद्धे विषय अस्चा कृता परमपुर निर्गुणवस्था परमुषे प्रकृते उपरी स्वामी कर्म इच्छा नस्द इच्छा नर्यां अवस्थ निर्गुणवस्थ पुषा प्रमुखः प्रधानः वर्तते बलवान् वर्तते प्रकृतिः बलहीना वर्तते शक्तिः सा सप् शक्तिः सा शिवस्य शक्तिः पुरुषप्रकृत्योः मध्ये पुरुषः बलवान् वर्तते प्रकृतिः बलहीना वर्तते प्रकृतिः यत्किमपि करोति पुरुषस्य उपरि एव करोति तर्हि निर्गुणावस्थायां पुरुषः बलवान् वर्तते इत्यत्र संशयः नास्ति यदा पुरुषः अनुमतिं ददाति तदानीं प्रकृतिः स्वस्याः कार्यं कर्तुं आरभते यदा निर्गुणावस्थायां पुरुषः तु प्रकृतेः उपरि स्वामित्वं कर्तुं तस्य इच्छा नास्ति तस्य स्वस्य अस्तित्वस्य बोधः नास्ति अतः स्वामित्वं कर्तुम् इच्छा नास्ति यदा पुरुषः प्रकृतेः उपरि युद्धं कर्तुम् इच्छति यदा सः प्रकृतेः बन्धने आयाति तदानीं पुरुषः प्रकृतेः अपेक्षया बलहीनः वर्तते यदा पुरुषः बलवान् अस्ति तदानीं तु तस्य तादृश इच्छा नास्ति प्रकृतेः उपरि स्वामित्वं कर्तुम् इच्छा नास्ति पुरुषः बलवान् वर्तते यदा पुरुषः अनुमतिं ददाति प्रकृतिः भवति स्वस्य कार्यं करोतु इति तदानीं तत्र षड्वादने वयं तत्र सङ्घर्षः आरभते षड्वादने सङ्घर्षः आरभते यदा वयं क्षुतितत्त्वं प्रति गच्छामः यदा वातावरणं वर्तते तदानीं तस्मात् क्षुतितत्वात् जीवः आविर्भूयते तदानीं तत्र यदा जीवः अवगच्छति यद् जीवः बन्धने अस्ति आदौ जीवः न अवगच्छति तस्य अभिज्ञानं नास्ति यद् सः जीवः अस्ति इति यदा तत्र एककोशः जीवः अस्ति सः तु सङ्घर्षं करोति अत्र सृष्टिचक्रे तत्र सर्वे जीवाः सङ्घर्षं कुर्वन्ति अग्रे तत् तेषां विकासः भवति अग्रे गमनमपि भवति यदा तत्र यदा अग्रगतिः भवति तत्र प्रतिसञ्चरधारायां तदानीं क्रमेण क्रमेण तत्र चैतन्यस्य प्रकृतिबन्धनात् मुक्तिः क्रमेण भवति यदा मनुष्यस्तरे वयं आगच्छामः तदानीं तत्र यदा अवबोधः भवति यदहं बन्धने अस्मि इति तदानीं तत्र परमात्मा आविर्भूय दीक्षां ददाति साधनमार्गस्य दीक्षां ददाति तदानीं तत्र सः साधनां कृत्वा अग्रगतिं प्राप्नोति यदा पुरुषः बन्धने अस्ति तदानीं सः प्रकृतेः अपेक्षया बलहीनः अस्ति तदानीं तत्र प्रकृतेः उपरि स्वामित्वं कर्तुम् इच्छा भवितुम् अर्हति यदा यदा मनुष्यः साधनां करोति तदानीं तत्र परमात्मनः परमात्मनः चिन्तनं भवति मनसि एकाग्रता भवति मनसि तादृशी शक्तिः वर्तते यथा वयं चिन्तयामः तद्वद्वयं भवामः एवं रीत्या साधनां करोति चेत् तदानीं प्रकृतिबन्धनात् मुक्तिः लभ्यते यदा तत्र प्रकृतिबन्धनात् मुक्तिः प्राप्यते तदानीं तत्र किं भवति इति चेत् सिद्धेः सिद्धिः सिद्धयः आगच्छन्ति तर्हि तत्र यदा साधकः तस्य लक्ष्यं किम् इति विस्मरति परमपुरुषः एव मम लक्ष्यम् इति यदा विस्मरति तदानीं किं भवति इति चेत् तदानीं सः साधनाया तत्र सिद्धेः प्रयोगं करोति यदा सिद्धेः प्रयोगं करोति तदानीं सः प्रकृतेः बन्धने पुनः आयाति यदा इत्युक्ते सिद्धेः प्रयोगः इत्यस्य अर्थः कः इति चेत् अस्माकं यः अहङ्कारः अस्ति तस्य वर्धनम् अस्ति अहङ्कारस्य नाशः एव अस्माकं साधना अस्ति यदि सिद्धेः प्रयोगं कुर्मः तदानीं तत्र पुनः अस्माकं मनसः आविर्भावः भवति खलु अतः अत्र अस्माभिः सावना सावधानतया गन्तव्यं यदि सिद्धेः प्रयोगः भवति तदानीम् अधोगतिः निश्चितः खलु अतः शक्तिनाम प्रयोगः अस्माभिः कदा कदा कदापि न करणीय कदापि कदा न करणीय खलु यतोहि तत्र लघु अहं भावस्य वर्धनं भवति सिद्धेहे प्रयोगेण खलु इति तावत्पर्यन्तम् अस्माभिः प्राप्तमासीत् इदानीं किञ्चित् अग्रे गच्छामः हा शुचित्रभग्नि पठति वा साधनया जनितशक्तेः दुःखनिवारणाय प्रयोगः उचितः अस्ति यथा गम्भीररोगनिवृत्त्यर्थं प्रयोगः इति बहवः मन्यन्ते अस्य समर्थनाय न कोऽपि तर्तः अस्ति सर्वैः कर्मणां परिणामः बोधव्यः भवति रोगः दुःखम् आपदः वा केवलं भिन्नरूपाणि परिणामानाम् अनुभवार्थं भगवान् ईश्वरः परोपकारियस्ति अस्ति तस्य च नियमानुसारम् एव केनचित् स्वकर्मणां परिणामः सोढव्यः भवति अनेनैव दुःखानुभभावेन केनचित् पाठः ग्रह ग्रहीतव्यः भवति दुष्कृतीनिवृत्त्यर्थं दुष्कृतनिवृत्त्यर्थं तेन उद्देश्येन एव कश्चन ईश्वरस्य आज्ञानुरोधेन परिणामम् अनुभवति साधनया प्राप्तानाम् अलौकिकशक्तीनां सहायेन अस्मिन् दिव्यनियमे हस्तक्षेपः परोपकाराय न भवति स्वस्य कर्मणां प्रतिक्रिया कर्मफलं सोढव्या भवति प्रतिक्रियाणां निवारणं श्रेष्ठभक्तानां साधकानाम् अपि अधिकारे नास्ति ते श्रेष्ठभक्ताः अधिकाधिकं अधिका अधिका अधिका अधिका दुःखस्य व्याक्षेपं कर्तुं शक्नुवन्ति परन्तु कर्मभिः कर्मणः शेषपरिणामः सोढव्यः भवति तदर्थं पुनर्जन्म प्राप्तव्यम् भवति दण्डरूपेण केनचित् गम्भीररोगेण पीडितः चेत् तस्मिन् पुरुषे मुक्तिप्राप्त्यर्थं साधनया साधनायाः इच्छा जागृतः भवति परन्तु साधनया जनितानां जनितानाम् साधनया जनितानाम् अलौकिकशक्तीनां सहायेन जनानाम् स्वस्य स्वस्य दुःखनिवारणं कृत्वा बहवः व्यभिचारिणः अज्ञानिनः च शिष्याः जनान् एतस्य जागरणस्य अवसरात् वञ्चयन्ति ते वस्तुतः पीडितस्य कृते सेवायाः अपेक्षया अधिकं दुष्कृतं कुर्वन्ति अत्र दत्तमस्ति यत् साधनया कदाचित् शिद्धेः प्राप्ति भवति अलौकिकशक्तिः प्राप्तं भवति तत्र शक्तेः प्रयोगः करणीयं वा न करणीयं वा करणीयं कोऽपि वदन्ति कोऽपि वदन् सन्ति तत् शक्तेः प्रयोगं तु स्वार्थनिवृत्त्यार्थं न करणीयं चेत् तत्र अन्यकस्यापि दुःखनिवारणा दुःखनिवारणार्थं कर्तुं शक्यते तस्य केनचित् कोऽपि रोगः अस्ति वा कदाचित् क्लेशः अस्ति तस्य निवृत्त्यार्थं प्रयोगः कर्तुं शक्यते इति जनाः अवदन्ति चेत् अत्र दत्तमस्ति न तत् तादृशं कार्यमपि न करणीयम् किमर्थं चेत् कर्म कर्मणां परिणामः यः करोति सः निश्चितेन तेन एव तेन एव तत् परिणामः भवति अतः यत्किमपि रोगं आ, आ, वा दुःखं वा आपदं वा यत्किमपि भवतु नाम तस्य परिणामं यदा आगच्छति तदपि अस्माकम् अग्रगत्यार्थम् इति चिन्तयित्वा तदपि वोढव्यः भवति अनुभवं कृत्वा तत्र कोऽपि किमस्ति गूढरहस्यं भवितुम् अर्हति तेन एव तादृश परिणामम् अनुभवेत्वा एव तस्य मनसि किमपि मनसि चिन्तने परिवर्तनं भवति अस्तु इदानीम् एतत् यत्किमपि दुष्कृतं कर्मम् अहं कृतं तस्य एव फलं रूपेण इदानीं कष्टम् अनुभवामि अतः अग्रे गत्वा तादृशं कार्यं न करणीयम् इदानीं तु भगवत् आराधना साधना वा, वा तादृशं कार्येण एव समयः इति चिन्तनमपि भवितुमर्हति अतः वयं जानीमः ईश्वरः परोपकारी अस्ति सः एव परमपिता तर्हि तत् अस्माकं दुःखं जनयितुम् इति न यत्किमपि दुःखं भवति तद् अस्माकं कर्माणामेव परिणामः अतः तस्य अनुभवेन तत्र किञ्चित् पाठः गृहीतव्यं भवति तेन अन्यथा यदा जनाः वदन्ति यदा वयं सुखेन दिनानि व्यतितं कुर्मः तदा अस्माकं चिन्तनमपि न भवति आध्यात्म इति कोऽपि विषयः अस्ति वा इति परन्तु कदाचित् किञ्चित् दुःखं भवति वा क्लेशः भवति वा तदा वयम् ईश्वरस्य ईश्वरं कुत्र अस्ति इति तादृशं कार्याणि ईश्वरं प्रीत्या सं कर्तुं प्रयासं कुर्मः अतः तादृशं कदाचित् तस्मिन् परिस्थिते अस्माकं कोपित सच्चिन्तनस्य आविर्भूतं भवितुम् अर्हति अतः लौकिकशक्त्या अन्यस्य कोऽपि दुःखनिवारणार्थं लौकिकशक्तेः प्रयोगं न करणीयम् तत् करण्य यदा तादृशं कार्याणि भवन्ति लौकिकशक्तीनाम् अलौकिकशक्तीनां प्रयोगेन कस्यचित् जनस्य हितकार्यं भवति इति कृत्वा भवति चेत् तत्तु तत्र तस्य यद् ईश्वरे ईश्वरस्य किमस्ति पद्धतिः अस्ति तत्र हस्तक्षेपः वर्तते अतः तादृशहस्तक्षेपः न करणीयः पुरुषः सम्यक् जानन्ति कस्य किम् आवश्यकमिति अतः तत् यत्किमपि कर्मफलम् अस्माकं समीपे आगच्छन्ति सुखं भवतु वा दुःखं भवतु वा क्लेशं भवतु वा यत्किमपि भवति तत्तु अनुभोक्तव्यं पाठमपि गृहीतव्यं भवति यदा पाठं न गृहीतव्यं चेत् तत् परिणामं पुनः पुनः अस्माकं जीवने आगच्छति पुनः पुनः तस्मिन्नेव कक्षायां पठित्वा पठित्वा अतः अग्रगतिः अपि भवतु इति चिन्तयित्वा तत्र कर्मफलस्य कर्मफलम् अनुभवितव्यम् अनन्तरं ततः शिक्षा अपि प्रतिक्रिया तु प्रतिक्रियाणां निवारणम् अतः कस्यापि दुःखस्य तत्र अस्तु वयं सेवां कर्तुं शक्नुमः तस्य सेवां कर्तुं शक्नुमः यद् लौकिकरीत्या अस्माकं वयं करणीयं भवति कस्यापि बुभुक्षा अस्ति अस्तु तस्य कृते भोजनं दातुं शक्नुमः परन्तु अलौकिकशक्त्या तस्य दुःखनिवारणं कर्तुं किमपि प्रयासं न कर्तव्यम् अन्य एककारणमपि वर्तते तत्र यदा कोपी जनस्य सः कर्मफलानाम् अनुभवं सम्यग्रीत्या न भवति चेत् पुनः तस्य पुनर्जन्मपि भवति तत् कर्मफलस्य कर्मपरिणाम कर्मफलस्य अनुभवितव्यम् अनुभवं कर्तुं पुनः पुनर्जन्मस्य अपि तत्र प्रक्रिया वर्तते अतः पुनः पुनः तद कर्मफलस्य परिणामरूपेण जन्मं प्राप्य पुनः भवितव्यम् एतादृशं न करणीयम् इति कृत्वा एव यत्किमपि अस्माकं समीपे आगच्छति तद् प्रसादरीत्या ईश्वरप्रसादमेव के यत्किमपि कर्म कृतं तस्य परिणामम् इदानीम् अनुवामि इति चिन्तयित्वा यत्किमपि भवतु नाम परमपुरुषः तु अस्माकं सहायं करोति तत्र कोऽपि क्लेशः नास्ति सः जानाति यत्किमपि सः अस्माकं पूर्वमागच्छति तस्य सामर्थ्यम् अस्माभिः वर्तते अतः एव तादृशं कार्यालयम् आविर्भवं भवति अतः तादृशं चिन्तनं कृत्वा अग्रगत्यार्थमेव अस्माकं प्रयासं भवतु साधनायाः आम् कदाचित् कोऽपि जनाः यत्किमपि आलौकिकशक्तिः ते न प्राप्तम् अस्ति साधनां कृत्वा किमपि तपस् कृत्वा प्रयोगं कृत्वा अन्य कस्यापि कुर्वन् जनान् सन्ति ते तु अज्ञानिनः एव किमर्थमित्युक्ते ते ईश्वरस्य आज्ञायाः ईश्वरस्य ये पिच्छा अस्ति अवरोधं कृत्वा ते चिन्तयन्ति ते जनान् तारयन्ति परन्तु एतत्तु तारणस्य अवसरः न ते जनान् साधनात् वञ्चयन्ति साधनायाः इच्छा न कदाचित् भवति यः एतादृशः अनुभवः नास्ति चेत् कर्मस्य परे कर्मस्य फलम् अनुभोक्तव्यं तत्र दयायाः पात्रं भवितुमर्हति सेवा कर्तुं शक्यते परन्तु अलौकिकशक्तिम् उपयोगं कृत्वा तस्य पीडानिवारणस्य कार्यं न करणीयम् इति एव बहु समीचीनं भगिनि धन्यवादः इति एव विषयः अस्ति अस्ति अत्र यः विषयः उक्तः सः स्पष्टः इति मन्ये अत्र मुख्य मुख्यतया विषयद्वयं वर्तते एकः विषयः तु परमात्मना सृष्टिकृता अत्र अस्यां सृष्टौ एका व्यवस्था वर्तते कथं जगत् कार्यं करणीयम् इति एका व्यवस्था वर्तते तर्हि अत्र आध्यात्मिकजीवनं यन्त्रं नास्ति एतादृशव्यवस्थायाः भञ्जनार्थं खलु तर्हि साधनाद्वारा शक्तिः लभ्यते चेत् परमात्मनः या व्यवस्था अस्ति तस्याः भञ्जनं वयं कर्तुं शक्नुमः इति नास्ति खलु अतः अत्र तस्य भङ्गः कर्तुं न शक्यते तर्हि साधनायाः लक्ष्यं किं जीवनस्य अनुसरणेन अस्माकं लक्ष्यं किम् इति चेत् परमात्मनः सह ऐक्यम् न तु केवलं तत्र अलौकिकशक्तीनां प्रयोगेन या व्यवस्था परमात्मना कृता तादृशव्यवस्थायाः भङ्गः तत्र अस्माकं ह हस्तक्षेपः न भव न भवेत् या व्यवस्था परमात्मना कृता सा व्यवस्था तथैव भवतु तत्र या तत्र यः कार्यकारणभावः वर्तते अस्मिन् जगति यत्किमपि जायते तद् जायते इति नास्ति सर्वत्र कार्यकारणभावः अस्ति परमात्मा एकः एव कारणरहितः परन्तु जगति सर्वं यत्किमपि जायते तत्र सर्वत्र कारणम् अवश्यमस्ति इदानीं वयम् अत्र स्मः एतद् इत्युक्ते एतं पाठं वयं पठामः खलु तत्रापि कारणम् अवश्यं स्यात् कारणं विना किमपि न जायते अतः प्रकृतेः नियमः एवम् अस्ति सर्वं कार्यकारणभाव अनुरोधेन एव सर्वं भवति अतः तत्र कारणस्य कार्यस्य भङ्गः न भवितुमर्हति खलु अतः कार्यकारणभावे अस्माकं हस्तक्षेपः न नववेत, तर्हि यदा कोऽपि पुरुषः यत् कोऽपि मनुष्यः सिद्धिद्वारा प्रकृतेः नियमानां भङ्गं करोति तदानीं तत्र हानिकारकं भवति तस्य कृते अपि हानिकारकम् अन्यस्य कृते अपि हानिकारकं यदा भगिनी प्रतिपादितवती यद् सः इदानीं तत्र यद् तेन अनुभोक्तव्यं तर्हि यदि सः सः न अनुभवति सिद्धेः कारणात् तदानीं तेन पुनः तादृशसंस्कारस्य भोगार्थं पुनः तेन जन्म प्राप्तव्यं खलु अतः तत्र इति इति कृत्वा तत्र संस्कारस्य नाशः न भवति सिद्धिद्वारा खलु अतः तत्र प्रकृतेः ये नियमाः सन्ति सन्ति तादृशनियमानाम् आदरः अस्माभिः करणीयः यः वास्तविकः साधकः अस्ति सः कदापि प्रकृतेः नियमानां विरोधे न गच्छति यतोहि एतत्तु मानवजीवनस्य लक्ष्यस्य लक्ष्यस्य विरोधे अस्ति खलु तर्हि परमात्मा परमात्मना सृष्टिकृता किमर्थं सृष्टिकृता सर्वेषां कल्याणं मनसि कृता सृष्टि अतः तस्मिन् तस्यां तृष्टौ नियमाः सन्ति व्यवस्था अस्ति सर्वं कार्यकारणभावानुरोधेन सर्वं कीम कार्यं करोति यद्यपि वयं न जानीमः कुत्र कार्यं किं कारणम् इति वयं न जानीमः वयं तु सर्वज्ञाः सर्वज्ञाः न स्मः अतः वयं न जानीमः तर्हि यदि प्रकृतेः नियमानां विरोधे वयं अलौकिकशक्तीनां प्रयोगं कुर्मः तर्हि जनानां हानिः भवति अस्माकमपि बहुहानिः भवति तर्हि यदि प्रकृतेः नियमा नियमानुसारेण सर्वं गच्छति चेत् तर्हि तस्मिन्नेव सर्वेषां कल्याणम् अस्ति यतोहि परमात्मा किमर्थं सृष्टिः कृता इति चेत् सर्वेषां कल्याणार्थम् अतः इत्युक्ते कस्यचित् हानिः भवतु इति कृत्वा परमात्मना सृष्टिः कृता अतः यद् यथा ता भवेत् तथैव भवेत् एतत्तु दिव्य व्यवस्था वर्तते खलु अस्तु अस्मिन् जगति जनाः कष्ट पस्ता, कष्टान् अनुभवन्ति तत्र नास्ति संशयः परन्तु कष्टः अपि अग्रगति अग्रगत्यर्थम् आवश्यकमस्ति तदानीमेव सः सः मनुष्यः अवगच्छति यद् अनिष्टं तेन कृतं तथा न कर्तव्यं तदानीमेव अग्रगतिः भवति मनसि तत्र मनसः वर्धनं भवति तत्र संस्काराणां भोगेन मनसः वर्धनं भवति अतः सर्वेषां कल्याणार्थम् एतादृशव्यवस्था कृता परमात्मा सर्वज्ञः अस्ति सर्वं जानाति सर्वेषां कल्याणम् इच्छति कल्याणकरः अस्ति सः कल्याणसुन्दरं वर्तते सः अतः सः सर्वं जानाति किमपि अज्ञात्वा तेन सः सर्वशक्तिमान् सर्वज्ञः सर्वकल्याणजनकः एतत् सर्वं अस्ति अतः यत्किमपि जगति जायते तद् कार्यकारणभावानुसारम् अस्ति तस्य विरोधे वयं प्रयासं न कुर्मः खलु इति अयं तु प्रथमः विषयः अस्ति द्वितीयः विषयः अस्ति यदा शक्तिनां प्रयोगं कुर्मः अन्येषां रोगाणां निवारणार्थं तत्तु तत्तु न्यायं नास्ति इत्युक्ते तद् तत् दर् इस् नाट् जस्टिफिकेशन् फोर् यूसिङ्ग् सिद्धि खलु यतोहि तत्र लक्ष्यं किं लक्ष्यस्य विस्मरणं भवति यदा शक्तेः प्रयोगः भवति तदानीं लक्ष्यस्य विस्मरणं भवति तर्हि सः साधकः नास्ति तस्य अधोगतिः अवश्यं भवति यदि शक्तेः प्रयोगः भवति तदानीं तत्र लघु अहम्भावस्य वर्धनं भवति प्रकृतेः विरोधे अस्माकं सङ्घर्षः अस्ति शक्तेः प्रयोगेन प्रकृतेः बन्धनं वर्तते वर्धते खलु अतः शक्तीनां प्रयोगः कदापि न करणीयं शक्तिः तुच्छः वर्तते तृणसमानं वर्तते इति मत्वा अस्माभिः अग्रे गन्तव्यम् अस्माकं लक्ष्यं तु शक्तिः नास्ति अस्माकं लक्ष्यं तु परमपुरुषः वर्तते अस्तु कष्टमिति मन्ये तर्हि इदानीम् अग्रे सरलाभगिनी अग्रे पठति या जनशक् जनितशक्तेः प्रयोगः निन्दारूपेण करणीयः भवति अलौकिकशक्तेः साहाय्येन परमपुरुषस्य स्वाभाविकनियमानां प्रभावशीलतां निष्प्रभावीकृत्य तस्य परमेष्ठतायाः प्रत्याह प्रत्यावानं न भवति किम् कश्चन जले चलनं कृत्वा नदीं तरेत् प्रचण्ड अग्नौ चलनं कर्तुं शक्नुयात् अथवा चमत्कारं कृत्वा असाध्य असाध्यरोगस्य चिकित्सामपि कर्तुं शक्नुयात् जलस्य अग्नेः च स्वभावं धर्मव्यर्थीकर्तुं कश्चन स्वस्य शक्तेः प्रयोगं करोति अपि च प्रकृतिनियमेः सह हस्तक्षेपेण कश्चन कर्मणां परिणामम् अनुभवति नद्यायां कश्चन जले चलति तर्हि सः मजित् दाहक धर्म वर्तते अतः तस्य सम्पर्के यत्किमपि आगच्छति तत् अवश्यं दग्धः भवति तथैव केनचित् स्वकर्मणाम् विपासः बोधव्य भवति एतेषां प्रभावाणाम् परिहरणम् ईश्वरस्य अधिकारस्य प्रत्याहवानं भवति एतत् के न केवलं प्रत्याहवानं प्रत्याहवानात्मकम् अस्ति अपि तु सृष्टेः संविधानस्य नियमानां च अवनतिः अस्ति एतस्मात् महत्तरः निन्दा न भवितुम् अर्हति स्म इदानीम् अस्मिन् परिच्छेदे दत्तमस्ति कथम् अलौकिकशक्तिः सिद्धा सिद्धिः यत् मनुष्य प्राप्नोति साधनाया साधनायां तस्य के प्रकारा सन्ति इति का प्रकारा सिद्ध्याः सन्ति इति दत्तमस्ति तस्य दुरुपयोगः न करणीयम् अपि यथा वयं पूर्वं परिच्छेदे दृष्टवन्तः ये सिद्ध सिद्धिः ये प्राप् प्राप्नुवन्ति अलौकिकशक्त्याः स्वाभाविक यत् कोऽपि यत् दुःखम् सहति तस्य यत् स्वाभाविक प्रगतिः अस्ति तस्य कृते हस्तेक्षप भवति तस्य आत्म आध्यात्मिक प्रगति जद, आ, ब्र, ब्र, ब्र, भाधं भवति बा बाधं बधनं भवति तत् इति न करणीयमस्ति यत् प्रयोगं करोति यः जनः सा स्थितिः आप्नोति अपि सिद्धिः यदि तस्य कृते आगच्छति तस्य दुरुपयोगः न करणीयम् इति अस्ति तस्य इति अस्ति परमपुरुषस्य स्वाभाविकनियमानां प्रभावशीलं निष्प्रभावीकृत्य तस्य परम इष्ठतायाः प्रत्याहनं न भवति किम् इति वदति परमपुरुषस्य स्वाभाविकनियमः अस्ति तस्य विरुद्ध विरुद्धं न करणीयम् इति अस्ति इति प्रबनं न बाधकं न करणीयं मध्ये कीदृशी इति अस्ति सिद्धिः को जले चलितुं शक्नोति वा कोऽपि यद् अग्निः अस्ति तु तस्य अग्ने अपि तस्य चम चमत्कारं दृष्ट्वा प्रचण्ड अग्निः अस्ति तस्मात् सः किमपि तस्य कृते न, न भवति अग्नेः प्रभावः वा कोऽपि बहु रोग रोगस्य रोगं ती अनुभवति तस्य यथा केन्सर् रोगः भवति तस्य चिकित्सा कर्तुं शक्नोति तां झटिति तस्य प्रकाश प्रकाशं दर्शयति अन्य माध्येन तस्य चिकित्सा शक, न अभवत् किन्तु अहं कर्तुं शक् शक्नोमि इति सः दर्शयति इति सर्व यदि सिद्धि प्रयोगम करोति तस्य तत् तस व्यर्थम् अस्ति कारणकी प्रत्येक प्रत्येकमनुष्ये यत्कमपि अ तस्य प्रारब्धे दुःखम् अस्ति तत् तस दुःखं तस्य आध्यात्मिक प्रगति प्रति आ, एक सोपानम् अस्ति तत् इति तेन इति सहितव्यम् अपि तस्मात् इति शिक्षा प्राप्तव्यं मया किं करणीयम् इति किन्तु यदि तस्य दुःखस्य निवृत्ति भवति आध्यात्मिक प्रति तस्य ध्यानं न जा भवितुं शक्नोति तु इति आस्ति हस्तेक्षेपकरण करणीयं भवति इति अस्ति नद्यायां के, केनापि कश्चन जले चलति सः स मज्जे इति किमस्ति कश्चन जले चलति तर्हि सः मज्जेत् भगिनि इत्युक्ते तदेव नियमः अस्ति खलु नद्यां वयं चलामः चेत् तत्र तत्र मज्जनं भवेत् खलु वाकिङ्ग् आन् दाटर् शुड् नी टु ट् इस् दिय नो स्विङ्ग् हि विल् ड्रौन् परन्तु शक्ति शक्तिद्वारा तत्र विपरीतं वयं कुर्मः चेत् तदानीं हस्तक्षेपः किन्तु कोपि मज्जे ड्यूटि अस्ति गन्तुं तत् तस्य रक्षा करोमि इति रक्षां करोति परन्तु आध्यात्मिक आलौकिकशक्तिं स्वीकृत्य न अस्तु रक्षा रक्षां कर्तुं तत्र रज्जोः क्षेपणं करोति तर्हि रज्जुद्वारा तस्य अन्यत्र आनयनं तीरे आनयनं भवति चेत् तत्तु भिन्नवार्ता यः मज्जति यः मज्जति सः इति स्विमिङ्ग् न जानाति किन्तु अहं तत्र तीरे तिष्ठ तिष्ठामि पश्यामि तस्य ता, मज्जनं भवति तदा अहं जानामि तरणं क कर, कथं करणीयम् तु अहं झटिति नद्यां गन्तुं तां तत्तु भिन्नवार्ता भगिनी तत्तु भिन्नवार्ता तादृशं तु अवश्यं करणीयं तत्र क्लेशः नास्ति परन्तु यदि भवती अलौकिकशक्तीनां प्रयोगं कृत्वा नद्याः विभजनं करोति येन सह येन सह मनुष्य तत्र ततः उत्ति किं ततः सः आगन्तुं शक्नोति उत्थाय जला तदानीं तत्तु तत्तु भिन्नवार्ता अत्र तु अलौकिकशक्तेः प्रयोगस्य विषयः अस्ति किन्तु अलौकिकशक्ति यः प्राप्नोति तस्य हृदये अपि इति करुणा आगच्छति न यः दुःखं सहति तस्य निर् निवारणं क करोमि इति त तदपि लोकस्य वा भवति न आमामां आम तत् तदर्थं तत्र सामान्यरीत्या वयं यथा वयं करो कर्तुं शक्नुमः तथा वयं साहाय्यं कुर्मः न तु अलौकिकशक्तीनां प्रयोगेन करुणा अस्ति तस्य मनसि करुणा अस्ति इति कृत्वा सामान्यरीत्या यथा वयं कर्तुं शक्नुमः तथा वयं तत्र क्लेशः नास्ति परन्तु शक्ति द्वारा जलस्य यद य, यद यः धर्मः अस्ति तस्य परिवर्तनं वयं कुर्मः चेत् तत्र तु हस्तक्षेपः अच्छा भगिनी अहं जानामि के के जनाः सन्ति ये जानाति अच्छा अहं तेषां अभिमुखं भव भवामि सः जानाति मम शरीरे के रोग, रोगा रोगाः भवितुं सो मां मन्त्रं ददाति इति मन्त्रेण मम रोग दूरं भवति इति न करणीयं मन्त्र मन्त्र मन्त्रस्य विषयं न जानामि परन्तु मन्त्रद्वारा मन्त्रमन्त्रेण तत्र अलौकिकशक्तिः इति नास्ति खलु मन्त्रेण मन्त्र तस्य इति शरीरे तस्य तीव्रैट् युनो the gantim sapnati yacha x-ray aai jaate i i'll tell in english their strength uh, uh, of their eyes is so good that they can penetrate through their body and they can make out what is there uh, Uh, wrong with their body and they can give them right mantra according to that. So there are mantras like that. It seems there are 14, 16 mantras out there and they can give them right mantra which will be applicable to that person for that uh, disease and then he can be cured from, like for the liver mantra like that they have it. So they can do it. so uh, there a big lines for that person he uh, i mean i've been bombay is there or he give a mudras to the people and then he when he gives a mudras or mantra to that person he he his eyes are closed and he is in front of uh, he has some lord murti or something like that okay and then and if you will know that mudras and achalmas uh people i know this mudra cha prana mudra cha apana mudra cha this mudra all of you have got the same mudra but that everybody is just but that uh, defect is different for everyone ei yeah, abagini yeah, bahini uh, aha avagchami parantu uh, tatra uh, tu yadi alaukika shaktinam prayogena saha tapa karoti cha tad anuchitam asti tasi adogati hi avashyam bhavati alaukika is uh, like, a, like a like a veg because uh, to me is like a veg He's become like a doctor, right? Because he can know whom to, what to diagnose and what to give. It's, a, it's like a doctor. Any doctor can be like that, isn't it? Yeah, yeah. If you do something like that, you can do something like that. But if you do something like that, you can do something like that. If you do something like that, you can do something like that. but i will cause that alaukik shakti without doing x-ray ct scan mri he would know that this person has a liver yeah. problem sahaya mm visaya hatra purushni parichede uktaasti kalu anya se roganam nivaranartham api alaukik shakti nam prayogha na kareniyah iti katare kimuktaasti purva muktaasti kalu tadrisya you know it is through this through the suffering that one takes a lesson to abstain from evil रैट् अलौकिकशक्तीनां प्रयोगः कदापि न करणीयः मनुष्याणां व्याधिः रोगाः एतेषां निवारणार्थमपि न करणीयः इत्यत्र उक्तमस्ति तत्र वैद्यः वैद्यः इति भिन्नम् आर्ता भगिनी वैद्यः इति भिन्नवार्ता सः तु अलौकिकशक्तीनां प्रयोगं न करोति तर्हि सः तु साधकः नास्ति सः सामान्यशक्तिः एक्सरे एतत् सर्वं सामान्यमस्ति अस्माकं वैज्ञानरीत्या तत्र तेषां वर्धनम् अभवत् अत्र तु मुख्यविषयः अस्ति सिद्धिः इति कस्यचित् पार्श्वे सिद्धिः अस्ति वा न वा इति भिन्नवार्ता सिद्धीनां प्रयोगः न करणीयः सामान्यवैद्यस्य समीपे वयं गच्छामः चेत् तत्र क्लेशः नास्ति but i can say that this way also this that art is gone because like the people before uh, like are you if they just you look at a pulse and they would diagnose and they they would give us uh, medical but sat samya kasti ayurveda dwara tatra nadi shuddhim krutva te kurvanti kalo tat tu tat bina marata tatru vaidya vigyana ritya tatra ki vaidya rupena tatra swakar hoti tatra tu alaukik <laughs> shakte he prayog haiti nasthi tatra अलौकिकशक्तिः इत्युक्ते किम् इति चेत् प्रकृतेः यः नियमः अस्ति तस्य भङ्गः इत्युक्ते तत्र यदि अस्माकं न तदर्थं शक्तिः न दत्ता तदर्थं शक्तिः न दत्ता शक्तिः अन्येषां सहायार्थं शक्तिः न दत्ता तत्र साधनाद्वारा तादृशशक्तिः लभ्यते तत्र तेन साधकः अवगन्तुं शक्यते तस्य अग्रगतिः अभवत् इति सः ज्ञातुं शक्यते तावदेव तत्र शक्तिः तुच्छा अस्ति इति मत्वा एव सः अग्रे गन्तव्यं यदि शक्तेः प्रयोगं करोति तदानीम् अहङ्कारस्य वर्धनम् अवश्यं भवति तस्य अधोगतिः अवश्यं भवति इति कथं जानाति भवती अहङ्कारः अस्ति वा न अस्ति इति कथं जानाति Otherwise, no person will wake and give 100 people this type of a seva. Nobody will do like that, Bhagini. Nobody will do. No, no. And so, you yeah. see... Whatever you have you put it into that and and uh, the people are standing in 100 And did he make sure that everybody's getting water? They are not standing in this thing So uh, in the Sun and all the thing and he make sure that he and before they come to him They won't do that if they had a hunkar No, no, no, but you see the the main point over here is that I Uh, a, a sadhaka, what is a sadhaka's lakshya? The sadhaka's lakshya is to attain Paramatma. To attain Paramatma, he needs to get rid of his, he's uh, essentially get rid of his own mind, right? In order to get rid of his mind, get rid of his own asitva, maybe he has gone to rid of his mind, I don't know. that no when you, you when you use the siddhis then automatically you come under the control of prakriti that is the key thing so maybe prakriti is making him do that no no no no it's not like that prakriti is making if he prakriti is making him, him do that then he is under the control of prakriti yeah you say prakriti is making him do that then he is under the control of prakriti then he is not got rid of the bandhana yet and by using the siddhis he comes more and more under the bandhana that is all it is even if it is uh, to you know help somebody right uh, right so if, if a sadhaka because of the siddhis if he say if he is uh, you know splitting the ocean into two and he is controlling the earthquake and he is doing all of that that means he is interfering with the srishti niyama so sadhaka cannot do that if he does that he is interfering with the srishti niyama he is essentially challenging god god has created uh, some niyamas for this universe Right? And God wants these things to happen and these are all happening according to the Karyakarana Bhava. And if somebody is trying to challenge that, that means they are showing this supremacy over Paramatma. Right? Then that is nothing but Vardana of Ahankara. That is all it is. So here, this is all I understand. If there is anything more, I will ask Mohade and let you know. But, uh, according to me even that person is doing under parmatma's order only that what he is helping others not anything parmatma right? i mean parmatma that's, that's what it is but the parmatma only guides you what to do right so he is under his guidance the whatever is the lord is uh, no no parmatma doesn't guide you to do use this siddhis you have the swatantra ichcha parmatma doesn't command tell you use this siddhi for elevating the suffering of the people no no no no there there whereas parmatma said hadis said anywhere that you use the siddhi for helping people there says you help the people that was uh, uh, you, peop you help the people you help to do the janaseva that is you do with your within janaseva your capacity not with extraordinary powers. powers you do huh? janaseva whatever you have you will do with that right so he has that uh, capable capability of uh, relieving somebody's pain or relieve with what he can do it, right with that mantra he can relieve somebody so why not and uh, no this is a very uh, controversial issue uh, but actually speaking a sadhaka should not use siddhis that is what is the I, the niyama that is uh, laid down by yeah, parama i know i mean i understand that uh, the siddhis come in your way of uh, progressing of your own that makes the jivanam but also i mean you should not interfere in somebody's uh, karma and the uh, yeah. karma everybody has to go through um, yeah. i know that but at the same time i, I don't know it's uh, <laughs> I mean uh, i we're yeah. like you, know, you, you you can see in the world there are so many examples people use the siddhis uh, for doing all this right and behind the back they do other things there are so many uh, so called uh, sadhu to get these yeah yeah there yeah, yeah. there those are bungies also you see that yeah know. there are so many so called sadhus who mm -hmm. use these only to show that they are superior right and to have a big fan following and uh, uh, and you know and behind the back there do also such things right so the the thing is the thing they is that when Siddhis, TV, the jesus will do this as you will attach these <laughs> yeah it it yeah, like, whole actually made like that in the tv no because yeah. see if, if your goal if your goal is going from a to b right and you are getting side streets and if you go in the side streets you are deviated from your goal for a sadhaka the goal is paramapurusha and if you going in the side street that means you when you are when you are using the cities that means you are going in a different path now you have lost your track right whether he is helping the people and people are getting benefited all this is, all of this different matter but that sadaka he's got adaugati by using the side track he's got we he lost lost track of his goal the goal is his lakshya is parmatma so he needs to go from a to b and instead so going from a to b he's going in the side streets right so the side street is not going to take taken to the lakshya by going the side street and he's thinking he's helping the people he's not helping the people They, those people have to go through their karma and they are not going through their karma, they are not going through their sankaras, they are not burning their sankaras by this person helping them. Right, that is the thing. So they are interfering with the karyakarana bhava of the sifti. So that is wrong. It is wrong in all angles. Even though from a laukika perspective it appears as if he is helping them, but he is not helping them. He is causing, causing harm to them and he is causing harm to himself as well. for such a sadaka who uses the siddhis is, his patanam is even greater right? so it's important to understand even though you know we can challenge this this topic i taught in other classes as well and there also i had this kind of challenges but what we need to understand is that we should not use these even for alleviating the suffering of others because we are interfering with the laws of prakriti right and normal things like you know going to the doctor and healing yourself all that is different but if somebody is using even their in their treating if, if even if a sadhaka is treating somebody how is he treating is he using his alaukika ability to treat then that is wrong he is treating them ordinarily uh, you know how a vaidya would treat an ordinary vaidya would treat that is a different matter okay Sorry. This is, <laughs> this is all and the sanctity is for all let me know <laughs> okay okay kitra banne agaya gachuto satyakam karmanah pratikriya bhavati eva sate anubhuktavya अलौकिकशक्तीनां प्रयोगः अपि ए एकं कर्म अस्ति न केवलं तत् कर्म अस्ति अपि तु ईश्वरनिन्दकं कर्म अर्थात् दुष्टं कर्म अस्ति तादृशकर्मणः विपाकः केनचित् अवश्यम् अनुभोक्तव्यः यावत् कस्यचित् पुरुषस्य सर्वेषां सम्भाव्यप्रतिक्रियाणां संस्कारस्य अनुभवः क्षीणः न जातः तावत् सः प्रकृतिबन्धनात् मुक्तिं प्राप्तुं न शक्नोति अतः साधनाभ्यासेन प्रदत्तानाम् अलौकिकशक्तीनां प्रयोगः तस्यामपि परिष्टौ न्यायि न्यायः नास्ति अनिवार्यतया पतनम् अवनतिं च जनयति अतः अत्यावश्यकमस्ति यत् प्रलोभनात् तादृशशक्तीनां प्रयोगः निर्वर्तनीयः यद् वयं पूर्वेपि चिन्तितवन्तः कर्मणा यत् कर्म कृतमस्ति तस्य फलमपि अनुभोक्तव्यः अतः तत्र अलौकिकशक्तिप्रयोगं कृत्वा तत् कर्मफलात् मुक्तिः प्राप्तुं शक्यते इति चिन्तनं न करणीयम् तत्र तु अलौकिकशक्तीनां प्रयोगं करोति चेत् तत्तु एककर्ममस्ति न केवलमेककर्म तत्तु दुष्कर्म अपि अस्ति किमर्थं यत् कर्मं कृतं तस्य फलम् अनुभोक्तव्यं तदेव प्रकृतेः प्रकृतिः नियमम् अस्ति तत्र अत्र अतः तादृशकर्मफलात् मुक्तिं प्राप्तुम् अलौकिकशक्तिं प्रयोगं करोति चेत् तत्तु हस्तक्षेपः अस्ति प्रकृतिनियमे अतः तादृशकर्म कदाचित् न करणीयं यत्किमपि भवतु नाम संस्कारस्य पुनः कर्म पुनः संस्कारस्य रक्षणं तादृशं भवन्ति यदा अलौकिकशक्तीनां प्रयोगः भवति चेत् यदा अलौकिकशक्ति प्रयोगः अपि भवति तत् तत्र वयम् एतदपि ज्ञातुं शक्नुमः तस्य मनसि इदानीमपि किमपि चिन्तनमस्ति सः इदानीमपि बन्धने अस्ति प्रकृतिबन्धना तस्य मुक्तिः न प्राप्तम् अतः एव यद् किमपि शक्तेः प्रयोगः सः कर्तुम् इच्छति कस्यामपि दुःखस्य निवारणार्थं भवतु साधनायाः प्रदर्शनं कर्तुं वा तादृशमपि यत्किमपि कारणं भवतु नाम परन्तु प्रयोगः अस्ति चेत् अलौकिकशक्तीनां प्रयोगः अस्ति चेत् कर्म अस्ति तस्य फलमपि भवि भवति सः तत्र एतद् ज्ञातव्यमस्ति सः इदानीमपि तस्य बन्धने भवति अतः कदाचिदपि तदलौकिकशक्तीनां प्रयोगः न करणीयं कर करोति चेत् तत्र अग्रगतिः न अभोगति इति निश्चयेन भवति एव एतादृशप्रलोभनं कदाचित् आगच्छति भवत्याः समीपे शक्तिः किमर्थं प्रयोगं कृत्वा तस्याः रोगस्य निवारणं करोति दुःखस्य निवारणं एतादृशं कथनं जनाः वदन्ति परन्तु तद् अतः तादृशस्थितौ न पतनीयं शक्तेः प्रयोगः कदाचित् न करणीयं शक्तेः उपरि अपि अस्माकं परं पुरुषस्य एका भक्तिः वर्तते तदेव अस्माकं लक्ष्यं भवतु नाम यत्किमपि शक्तेः प्राप्तं तत्तु मार्गे आगतं कदाचित् अनेकानि मार्गे वस्तूनि आगच्छन्ति एव तादृशं चिन्तयित्वा अस्माकं लक्ष्यात् कदाचित् अस्माकं पथभ्रमण भ्रान्तिः न भवतु अतः अलौकिकशक्तीनां प्रयोगः न करणीयं कदाचित् तदेव हा हा सम्यक् सम्यक् समीचीनम् इत्युक्ते अलौकिकशक्तीनां प्रयोगः एव एकं कर्म अस्ति खलु तस्य प्रतिक्रिया अवश्यं भवति तर्हि तत्र अस्माकं लक्ष्यं किम् इत्युक्ते निर्गुण अस्माभिः प्राप्तव्या खलु तर्हि संस्काराणां नाशः भवति संस्काराणां नाशः भवेत् तदानीमेव अस्माकं मुक्तिः भवति यदि तत्र अलौकिकशक्ति अलौकिकशक्तीनां प्रयोगं करोति तदानीं तत्र पुनः संस्काराः जायन्ते तर्हि त तादृशसंस्काराणां भोगः करणीयः तदर्थं पुनः जन्म भवति इति जन्ममरणचक्रे सः पतति तर्हि प्रकृतेः नियमानां कार्यकारणभावविरुद्धे अलौकिकशक्तीनां प्रयोगेन स्वस्य अरोगतिः अवश्यं भवति यतोहि तत्र संस्काराः जायन्ते संस्काराः जायन्ते चेत् अग्रगतिं प्राप्तुं विलम्बः जायते तदानीं तत्र पुनः प्रतिसञ्चरधारायां सः पतति तत्र संस्काराः पुण्यपापं वर्तते चेत् तदानीं तत्र पुनः जन्म भवति अतः सर्वरीत्या तद् अनुचितम् अस्ति तस्मिन् पासिटिव् तिङ्ग् नास्ति यस्य पार्श्वे शक्तिः अस्ति सः तु एतद् द्रष्टुं न शक्नोति तदेव तत्र सा समस्या तेतु, तु शक्ति शक्तिद्वारा सः तु अन्धः भवति अतः तत्र अतः तत्र अयं मार्गः बहु क्लिष्टकरः अस्ति खलु हानिकारकः अस्ति क्लिष्टकरः अस्ति अतः यस्य मनसि भक्तिः अस्ति परमात्मानं प्रति परा भक्तिः वर्तते रागात्मिका भक्तिः वर्तते तदानीं ता तस्य तादृशपुरुषस्य हृदि शक्तीनां प्रयोगे इच्छा भवति खलु तर्हि यत् यस्मिन् हृदि एतादृशपराभक्तिः नास्ति स एव तत्र शक्तीनां प्रयोगे सः एव उत्सुकः भवति तर्हि यस्य सम्पूर्णरीत्या समर्पणम् अस्ति तदानीं सः पुरुषः तु परमात्मानं प्रति आकर्षितः भवति अतः तस्य अग्रगतिः भवति सः तु शक्तिः या शक्तिः अस्ति तस्य शक्तिः तृणरूपेण सः मन्यते तर्हि यस्य हृदि आकर्षणं नास्ति परमात्मानां प्रति सः शक्तीनां प्रयोगे सः एव उत्सुकः भवति मार्गभ्रष्टः भवति तस्य मनः दूषितः भवति यतोहि सम्यक्तया योगस्य जीवनस्य पालनं न करोति सः इदानीं भ्रमितः अस्ति अग्रे गमनीयं वा शक्तीनां प्रयोगः करणीयः वा इति किमर्थं शक्तीनां प्रयोगः करो करोति यतोहि सः प्रदर्शयितुम् इच्छति अहं महान् इति खलु अतः सः साधकः इदानीं भ्रमितः अस्ति सः सम्यक्तया परमात्मानं आकर्षणं प्राप्तुं न शक्तवान् इति कृत्वा शक्तीनां प्रयोगं करोति यः वास्तविकः साधकः अस्ति सः शक्तिः तुच्छा वर्तते इति मत्वा सः अग्रे गच्छति इत्येव विषयः उक्तः अत्र स्थगनं कुर्मः अस्मिन् विषये इतोपि किञ्चित् वर्तते चेत् अग्रिमसप्ताहे सूचयामि परन्तु यावत् अहं जानामि तावत् इदानीम् उक्तवती प्रश्नानां निवारणं न जातं चेत् किञ्चित् सूचयन्तु धन्यवाद भगिनी धन्यवादः धन्यवादः